श्रीहरे नमः अत तृतीयोऽध्यायः श्रीशुक उवाचा नाभिपद्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषम् अवहितात्मा तस्य हाव श्रद्धया विशुद्धभावन यजत प्रवर्क्येषु प्रचरस्तु द्रव्यदेशकालमन्त्रिद्विग्दक्षिणा विधानयोगोपपत्त्या दुरधिकमोऽपि भगवान् भागवतवात्सल्यतया सुप्रदीक आत्मानं अबराजितं निज जनाभिप्रेतार्थं विधिषया गृहीतहृदयो हृदयङ्गमं मनोनयानानन्दन अव्यवापि राममाविश्चकार अतः कथं नाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं कपिसकौशेयाम्बरधरम् उरसिविल श्रीवत्सललामं धरवर वनरुह वनमाला उपलक्षितं स्फुटकिरणप्रवर मुकुटकुण्टलकटककटिशोद्रहार केयोरनो पुराध्यङ्गभूषणविभूषितम् ऋत्विक्सदस्य गृहपथयोधना इवोत्तमः धनमुपलभ्य स बहुमानम् अर्हणेन अवनत शीर्षाण उपतस्तुः ऋद्विजौचु अर्हसि मूः अस्माकं अस्माकम् अनुपतानां नमो नम, नम इत्येतावत् सदुपशिषितं कोर्हति भुमान् प्रतिकृतिगुण परस्य प्रकृति पुरुषयो अर्वाक्थ नाभिर्नामरूपा कृधिभि निरूपणं सकलजननिकाय वृजिननिरसन शिवतमः प्रवरगुणगणैकदेशकथनादृते परिजनानुराग विरचितशबलसंशब्द सलिलसित किशलय तुलसिका दूर्वाङ्कुरैरपि सम्भृतया सपर्यया किल परमपरितुष्यसि अथा भराभरया समुचितं अर्तमिहोपलभामहे आत्मन एवानुसवनम् अज्ञसा अव्यधिरेकेण भो भूयमानशेषं पुरुषार्थस्वरूपस्य किन्नुनाताशिषम् आसानानां एतदपि सम्प्रार्थनामत्रं भवितुमर्हति तद्यथा पालिसानां स्वयमात्मनः परमविदुषां परम परमपुरुषः परम प्रकर्षकरुणया स्वमहिमानं चापवर्गाक्यम् उपकल्पयिष्यन् स्वयं नापचिथ इहोपलक्षितः अथ अयमेव वरोह्यर्हत्तमर्ह्यं बर्हिषिराजर्षेर् वरदर्षभो भवान् निजपुरुषे क्षण विषय असङ्गनिसितज्ञानानल विधूताशेषमलानां भवत्स्वभावानाम् आत्मा रामाणां मुनीनाम् अनवरत परिगुणितगुणगणपरम मङ्गलायन गुणगणकथनोऽसि अथ कथञ्चित् स्खलनक्षुत्पतन जृम्बण दुरवस्थानादिषु विवसानां न स्मरणाय सायामपि शकलं कस्मलनिरसनानि तव गुणकृतनामुदेयानि वचनगोचराणि भवन्तु किञ्चायं राजर्षि अपत्यकामः प्रजाम्बवादृशीम् आसान ईश्वरं स्वर्गा स्वर्गाभवर्गयोरपि भवन्तमुदधावति प्रजायाम् अर्थप्रत्ययो धनधमिवा धनफलीकरणं को वायिकते पराजितो पराजितया मायया अनवसितपतव्यानावृत मतिर्विषयविशरयानावृत प्रतिकृतिरनुभासितमहश्चरणः यदुहवाव तव पुनरदप्रकर्तरिह समाहूतस्तत्रार्थ धिया मन्दानाम्नस्तद्य देवहेलनम् देवदेवार्हसि साम्येन सर्वान् प्रतिवोढुमविदुषा श्रीशुक उवाच इति निगदेन, अभिष्टुयमानो भगवान् अनिमिषर्षभो वर्षधराभिवादिताभिवन्दित चरणः श्रीभगवानुवाच अहो बदाहं ऋषयो भवत्पिः अवितथ गीर्भिर्वरमसुलभम् अभियाचितो यदमुष्य आत्मजो मया सदृशो भूयादिति ममाहमेव अभिरूप कैवल्यात् अथाभिब्रह्मबाधो न मृषा भवितुमर्हति ममैव हि मुखम् यद्विज देवकुलं तद आग्निद्रियेम् सकलया अवधरिष्यामि आत्मतुल्यम् अनुपलभमान श्रीशुक उवाच इति निशामयन्त्या मेरुदेव्यां पतिमभिधायन्तर्धते भगवान् परिहिषितस्मिन् एव विष्णुदत्त भगवान् परमर्षिभिः प्रसादितो नाबे प्रियचिकीर्षया तदवरोतायने मेरुदेव्यां धर्मान् दर्शयितु कामो वादरसनानां श्रमणानां ऋषीणामूर्ध्वमन्तिनां शुक् क्लया तनुभाव तार इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे नापि चरिते ऋषभावतारो नाम तृतीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द